पूर्ण नमो नमः नमो नमः जा शङ्करि नमो नम तिरिजाशङ्करि नम भवान् सरस्वती नमो नमः आ <laughs> <laughs> <laughs> <laughs> <laughs> <laughs> रि नमो नमजा शङ्करि नमो नमः हिजा शङ्करि भवानी No more, no more, no more. पार्वती नमः ओ मा पार्वती नमः ॐ मा पार्वती hari namo nama iri ja shankar namo nama iri ja shankar र नमो नमः सुन्दरि सरस्वती नमो नमः सुन्दरि सरस्वती हरिमो नमी रे जाश नम हिरिजाशङ्करि रम havani लक्ष्मी अन्नपूर्णा पार्वती नमः High, do ी नमो नमः शङ्करि नमो नमा, काली दूर्गे नमो नमः नमो नमो कारि दूर्गे नमो म नम शङ्करि नमो नमरि जा शङ्करि नमो नम तिरिजा शङ्करि नमो नमीरि शङ्करि नमो नम तारि मा